हरि ओम् श्री सीता रामचन्द्राभ्यां नमः तथा श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्तदश स्वर्गः विभीषणस्य श्रीरामस्य आश्रमे गमनम् श्रीरामेण मन्त्रिभीथ तदर्थम् आश्रये दाने विचारणञ्च इत्युक्त्वा परुषम् वाक्यम् रावणम् रावणानुज अजगामा मुहूर्तेन यत्र राम लक्ष्मणः तम बेलुशिखराकार दीप्तामी शतर्म गगनाथ दुशराधि ते चाप्य नोचरा तररोम विक्रम है। ते प्रे वर्मा युधोपेत भूषणोत्तम भूषिता सैच प्रख्यो वज्रयू सभ स्वरायुध धीरो दिव्याभरणभूषितः तम् मत्पञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः वानरैः सह दुर्दर्श चिन्तयामास बुद्धिमान् चिन्तयित्वा मूर्तम् तु वानरान् ताण्डुवाचः अनुमयत् प्रमुखान् सर्वान् इदम् वाच नमोत्तमम् एवा इधोपेत चतुर्भि स राक्षसै राक्षसोभ्येति पश्य ध्वम् अस्मान् हन्तुम् न संचयहे सुग्रीवस्य वच श्रुत्वा सर्वे ते वा नरोत्तमः शालानुद्यम्य चैलाश इदम् वचनमब्रुवन् शीघ्रम् व्यादिश नो राजन् वधा यैषाम् दुरात्मनाम् निपतन्ति हता यावत् धरण्याम् अल्पचेतनः तेषां सम्भाषमाणानाम् अन्योन्यं च विभीषणः उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत् सर्वाच महाप्राज्ञ स्वरेण महता महन् सुग्रीवं तां च सम्प्रेक्ष्य एव विभीषणः रावणो नाम दुर्वृत्तौ राक्षसौ राक्षसेश्वर तस्याहं मनुजो भ्राता विभीषण इति श्रुतः तेन सीता जनस्थानात् हृता हत्वा जटायुषं वृद्धा च विवशाधीना राक्षसीभिः सुरक्षिता तमहं न्यदर्शयन् साधु निर्यात्यतां सीता रामायेति पुनपुन, सचन स च न प्रतिजग्राह रावणकालचोदितः उच्यमानम् हितं वाक्यम् विपरीत इवोषधम् स्वचितः तेन दासवश्चावमानितः त्यक्ता पुत्रा च दारां च राघवं शरणं गतः निवेदयत मां क्षिप्रम् राघवाय महात्मने सर्वलोकचरण्याय विभीषणम् उपस्थितम् एतत्तु वचनम् श्रुत्वा सुग्रीवो लघुविक्रमः लक्ष्मणश्चाग्रतो रामं संरब्धम् इदमब्रवीत् प्रविष्ट शत्रुसैन्यम् हि प्राप्त शत्रुर न्यन्यादन्तरं लब्ध्वा उलूको वायसान्नि वये मन्त्रे व्यूहेनये चारे युक्तो भवितु वानराणां च भद्रं ते परेषां च परन्तप अन्तर्धानकता ये ते राक्षसा कामरूपिणः शूराश्च निकृतिज्ञाश्च तेषां जातु न विश्वसित् प्रणीति राक्षसेन्द्रस्य रावणस्य भवेरयम् अनुप्रवीश सोष्मासु वेदं कूर्यान संचयः अथवा स्वयमेवैष छिद्रमासाद्य बुद्धिमान् अनुप्रवीश्य विश्वसे कदाचित् प्रहरेदपि मित्राट्वी बलम् चैव मौलभृत्य तथा सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् प्रकृत्या राक्षसो येष भ्रातामित्रस्य वै प्रभो आगतश्च रिपु साक्षात् कथम् भस्मि च विश्वसेत् रावणस्यानुजो भ्राता विभीषण इति श्रुतः भवन्तं शरणम् गतः रवणेन प्रणीतम् हि तम्मवे हि विभीषणम् तस्याहम् निग्रहम् मन्ये क्षमाम् क्षमवताम्बरे राक्षसो जिम्हया बुद्ध्या सन्दिष्टोऽयम् ह्यगतः प्रहर्तुम् मायया छन्नो विश्वस्ते त्व हि चानघे बध्यता सति वरेण श्रवणस्य ने च विभीषण एवम् भूत्वा तु तं रामम् वाक्यन्यो वाक्यकुशलम् ततो मौनं उपागमयत् सुग्रीवस्य तु तद्वाक्यम् धृत्वा रामो महाबल समीपस्थान् प्रमुखान् कपीन् यदुक्तम् कफिराजेन रावणा वरजम्प्रति वाक्यं हेतुमदत्यर्थम् भवद्भिः अपि च श्रुतं श्रहृदामर्थकृच्छु युक्तम् बुद्धिमता सदा समर्थेनोपसंवेष्टुम् शाश्वतीम् भूतिमिच्छत इत्येवम् परिपूजास्ते स्वतम् मतन्द्रितः ऊचु प्रिय चिकित्सवे सन्यासम ना किंचोके आत्मा पूजयन राम पृछस्वृत्त समी सत्य व्रत शूर धाको दृढ़ विक्रम परीक्षे कार्य स्मृति मन निसृात्मा सुझ तस्मादेकैकशस्तावत् ब्रुवन्तु सचिव तव हेतुतो मतिसम्पन्ना समर्था च पुनः पुनः इत्युक्ते राघवायाथ मतिमानङ्गतो गृतः विभीषण परीक्षार्थम् उवाच वचनं हरिः शत्रो सकाशात् सम्प्राप्तः सर्वथा तर्क विश्वासनीयस्ततः न कर्तव्यो विभीषणः छादयित्वात्मभावं हि चरन्ति शठ बुद्धय प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सु महान् भवेत् अर्थानर्थो विनिश्चित्य व्यवसायम् भजेतः गुणतः सङ्ग्रहम् कुर्यात् दोषतः सु विसर्जयेत् यदि दोषो महान्तस्मिन् त्यजतामविशङ्कितम् गुणान् वापि बहु ज्ञात्वा सङ्ग्रह क्रियताम् नृप शरप तथ निश्चित्य सार्थम् वचनमब्रवीत् क्षिप्रम् अस्मिन् रव्याघ्र चार्य प्रतिविधीयताम् प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिन परीक्षे च सार्यो यथा न्यायम् परिग्रह जाम्बवान् तथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः वाक्यं विज्ञापयामास गुणवे दोषवर्जितम् बद्धभैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः आदेशकाले सम्प्राप्त सर्वथा शङ्ख्यमातामयम् ततो मन्दः तु सम्प्रेक्ष्य नयाप नय कोविदः वाक्यं वचनसम्पन्नो बभाषे हेतुमात्तरम् अनजो नाम तस्यैषे रावणस्य विभीषणः पृच्छताम् मधुरेणायम् शनैन्दर पतेश्वर भावम् अस्य तु विज्ञाय तत्त्वदत्तं करिष्यति यदि दुष्टो न दुष्टो वा बुद्धिः पूर्वं अथ संस्कार सम्पन्नो हनुमान् सचिवोत्तमः उवाच वचिलम् शक्ष्म अर्थवन् मधुरं लघु न भवन्तम् अतिश्रेष्ठम् समर्थम् वदतां वरम् अतिशायितुं शक्तो बृहस्पति अपि न वादान्नापि सङ्घर्षान् नाधिक्यान्न ना च कामतः वक्ष्यामि वचनम् राजन् यथार्थम् रामगौरव अर्थानर्थनिमित्तम् हि यदुक्तम् स च वैस्तव तत्र दोषम् प्रवश्यामि क्रिया न ह्युपपद्यते कृतेन योगः सामर्थ्यम् अवबोद्धुम् न शक्यते स विनियोगोऽपि दोषवान् प्रतिभाति मे चार प्रणीहितम् युक्तम् यदुक्तम् सचिवैस्तव अर्थस्यासम्भवात् तत्र कारणं नोपपद्यते अदेशकाले सम्प्राप्त इत्ययम् यद्विभीषणः विवक्षा तत्र मे निबोध यथामति एष देशश्च कालश्च भवतीह यथा तथा पुरुषात् पुरुषम् प्राप्य तथा दोषगुणोऽपि दोलात्म्यम् रावणे धृष्ट्वा विक्रमम् च तथा त्वयि युक्तम् आगमनम् यत्र सदृशम् तस्य बुद्धितः अज्ञातरूपै पुरुषैः स्वराजन् पृच्छतामिति यदुक्तम् अत्र मे प्रेक्षा काचिदस्ति समीक्षिताय पृच्छमानो विशङ्केत स्वसा बुद्धिमान् वचः सत्रमित्रम् प्रदुष्येत मिथ्यापुष्टम् सुखागतम् अशक्यम् सहसा, सुखा सहसा राजन् भावो बोद्धुम् परस्य वै अन्तरेण शरीर्भिन्नै नैपुण्यम् पश्यताम् भजम् न तस्य ब्रूतो दातु लक्ष्यते दुष्टभावन प्रसन्नं वदनं चापि तस्माद्वे नास्ति संशय अशङ्कितं परिसरपति न चास्य दुष्टभागस्ति तस्मान् वे नास्ति ना तस्मान संशय आकारच्छाद्यमानोऽपि न शक्यो विनिगूहितम् बलाधी विवृणोत्येव भावमन्तर्गतं नृणां देशकालोपपन्नं च कार्यं कार्यविदम्बर सफलं कुरुते प्रयोगेना प्रयोगेनाभिसंमितम् उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तम् च रावणम् ब्वालिनं च हतं श्रुत्वा सुग्रीवं चाभिशेषितम् साजं मानस्तु बुद्धिः पूर्वं ह्यागतः एतावत्तु पुरस्कृत्य युज्यते तस्य सङ्ग्रह यथाशक्ति मयोक्तं तु राक्षसस्य जपं प्रति प्रमाणं त्वं हि चेतस्य श्रुत्वा इत्याशे श्रीमन् वाल्मीकि अधिकारी युद्धकाण्डे सप्तदश सर्ग श्री सीतारामचन्द्रमणमस्तु